ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं तर्टिसिक्स् पृथिवी दोहनं शांशपायन उवाच मन्वन्तराणि चेशाणि श्रोतुमिच्छाम्यनुक्रमाद् मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् सूत उवाच मन्वन्तराणि यानि स्युरतीतानागतानिह समासाद्विस्तरा चैव ब्रुवदो मे निबोधत स्वयंभुवो मनुः पूर्वं मनुःस्वारोचिषस्तथा वक्ष्याम्यष्टावनागतान् सावर्निश्चैव रौच्यश्च भाउत्यो वैवस्वतस्तथा वक्ष्याम्येदान् पुरस्ता तु मनोर्वेवस्वतस्य च मानसां स्थान्निबोधत मन्वन्तरं मया वोध्यक्रातं स्वयंभुवस्यः अधवूर्ध्वं प्रवक्ष्यामि मना प्रजासर्गं समासेन द्वितीयस्य महात्मनः आसन्वै तुषिदा देव पारावताश्च विद्वांसो द्वावेवतु गणौ स्मृतौ तुषितायां समुत्पन्नाक्रदो पुत्रा स्वरोचिषः पारावताश्च वासिष्ठाद्वादश द्वौ गणौ स्मृतौ चन्दजाश्च चतुर्विंशदेवास्ते वै तदा स्मृताः दिवस्पर्शो धजामित्रो गोपदो भासुरस्तथा अजश्च भगवाश्चैव द्रविणश्य महाबलः आयश्चापि महाबाहुर्मखौजाश्चापि महा वीर्यवान् चिकित्वान् विश्रुतो यस्तु चांसो यश्चैव पठ्यते हृतश्च द्वादशस्तेषां तुषिताः परिकीर्तिताः इत्येते क्रदुपुत्रास्तु तदा सन् सोमपायिनः प्रजेताश्चैव यो देवो विश्वदेवस्तथैव समञ्जो विश्रुतो यस्तु ह्यजिह्मश्चारिमर्दनः आयुर्दानो महामानो दिव्यमानस्तथैव च महाभागो यवीयांश्च महाबलः होदा यज्वा तथा ह्येदे परिक्रान्ताः परावताः इत्येता देवदाह्याः सन् मनोस्वारोचिशान्तरे सोमपास्तु तदाह्येदाश्च दुर्विशदि देवताः तेषामिन्द्रस्तदाह्यासीद्विपश्चिल्लोकविश्रुतः ऊर्जावशिष्टपुत्रश्चस्तम्भक् काश्यप एव च भार्गवश्च तथा पौलस्तिरात्रे निश्चलस्ता पौलहोधाराशे येदे सप्तर्षयस्तथा। चैत्र किंपुर कृता रवि बृहदुग्धो नव से दुस्रुतचे नवस्मृता मनोस्वारोचिषस्य इदे पुत्रा वंशकराः प्रभो पुराणे परिसङ्ख्यादाद्वितीयं वै तदन्तरं सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयं मूलं मन्वं तरस्यैदे तेषां चैवान्वयाः प्रजाः ऋषीणां देवदाः पुत्राःपितरो देवसूनवः ऋषयो देवपुत्राश्च इति शास्त्रे विनिश्चयः मनोः क्षत्रं विशश्चैव सप्तर्षिभ्योद्विजातयः एतन्मन्वन्तरं प्रोक्तं समासा च न स्वायम्भुवेन विस्तारो ज्ञे यस्वारोचिषस्य च न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि पुनरुक्तबहुत्वात् प्रजानां वैकुले कुले, कुले तृतीये त्वथपर्याये उत्तमस्यान्तरे मनोहो पञ्चदेवगणा प्रोक्तास्तान्वक्ष्यामि निबोधत सुधामानश्च ये देवा ये चान्ये वशवर्तिनः प्रदर्धनाशिवा सत्यागणाद्वादशकास्मृताः सत्यो धृदीर्दमो दान्तः क्षमः क्षामो शोर्जस्तुर्णश् तथा द्वादशसु धास्तु नाम सहस्रदारो विश्वायुसमद बृहद्वसु विश्वधा विश्वर्मा मानसस्तु विराजस ज्योतिश्चिभासा वंशवर्तिन अवध्यो वरदीद वसुर्धिष्ण्यो विभासु विधुसुधर्मा चुतधर्मा यशस्वीज रथोर्मेतुम्मा कीर्तिस्तु प्रदर्दना हंसस्वारौ वदान्यौ च प्रदर्दनयशस्करौ सुदानो वसुदानश्च सुमं जसविषाबुभौ यमो वह्निर्यदिश्चैव सुचित्रः सुतपास्तथा शिवाह्यदे दुविज्ञेया यज्ञेया सत्यानामपि नामानि निबोधदयधा तथं दिक्पदिर्वाक्पदिश्चैव विश्वशम्भुस्तथैव च स्वमृडीको दिविश्चैव वर्चो धामा बृहद्वपुः अश्वश्चैव सदश्वश्च क्षेमानन्दौ तथैव सत्याख्ये दे परिक्रान्ता यज्ञीया द्वादशा पराः इत्येता देवदाह्याः सन्न उत्तमस्यान्तरे मनोः तेषामिन्द्रस्तु देवानां सुशान्तिर्नामविश्रुतः पुत्रास्त्वङ्गिरशस्ते वै उत्तमस्य प्रजापतेः वसिष्ठपुत्रा सप्तास्सन्वासिष्ठा इति विश्रुताः सप्तर्षयस्तु ते सर्व उत्तमस्यान्तरे मनोः आचश्च परशुश्चैव दिव्यो दिव्यौषधिर्नयः देवा भुजश्च प्रदिमौ महोत्साहो गजस्तथा विनीतश्च सुकेतुश्च सुमित्र सुमधिश्रुतिः उत्तमस्य मनोः पुत्रा त्रयोदशमहात्मनः यदेक्षत्रप्रणेतारस्तृतीयं चैदन्तरम् औत्तमः परिसङ्ख्यादः सर्गस्वारोचिषेण तु मस निबोधत चतुर्धे तमसस्तरे मनोहर सूसु हरयश्च गणस्मृदस्पुत्रस्ते देवास्ताम मनोहो, गणस्तु तेषां देवानां मे कैकः पञ्चविंशकः इन्द्रियाणां प्रदीयेद ऋषयः प्रतिजानते सप्रमाणास्तु शीर्षण्यं मनश्चैवाष्टमं तथा इन्द्रियाणि तथा देवा मनोत्तस्यान्तरे स्मृताः तेषाम् बभूवदेवानां शिविरिन्द्रप्रदापवान् सप्तर्षयोन्तरे ये च तान्निबोधत सप्तमाः काव्य आङ्गिरसश्चैव भार्गवः पौलहश्चरकश्चात्र वासिष्ठः पीवरस्तथा चैत्रस्तथैव पौलस्त्यर्षयस्तामसेन्दरे जानुजङ्घस्तथा शान्दिर्नरख्यादिशुभस्तथा कृशाश्वकृदबन्धुश्च तामसस्य मनोस्सुताः पञ्चमे त्वदपर्याये मनोस्वारोचिषेन्तरे गुणास्तु ये समाख्यादा देवानां तान्निबोधत अमिताभा वैकुण्ठा स सुमेधसः वरिष्ठाश्च शुभाः पुत्रा वसिष्ठस्य प्रजापतेः चतुर्दशधुचत्वारो गणास्तेषां सुभास्वराः उग्रप्रज्ञोऽग्निभावश्च प्रज्योदिश्चामृतस्तथा सुमधिर्वा विरावश्च धामाना दश्रवास्तथा वृत्तिराशी च वादश्च शबरश्च चतुर्दश अमिताभा स्मृदाह्येदे देवा स्वारोचिषेन्दरे मदिश्च सुमतिश्चैव हृदसत्यौ तथैधनः अधृधिर्विधृतिश्चैव दमो नियम व्रतो विष्णुः सहश्चैवद्युदिमान् शुश्रवास्तथा इत्येतानीह नामानि आभूतयसां विदुः वृषोभेताजयो भीमशुचिर्दान्तो यशोदमः नाथो विद्वानजे यश्च कृशो गौरोध्रुवस्तथा कीर्तितास्तु विकुण्ठा वै सुमेधांस्तु निबोधत मेधामेधातिथिश्चैव सत्यमेधास्तथैव च पृश्निमेधाल्पमेधाश्च भूयो मेधाश्च प्रभुः दीप्तिमेधा यशोमेधा स्थिरमेधास्तथैव सर्वमेधा सुमेधाश्च प्रतिमेधाश्च यस्मृतः मेधजा मेधहन्ता च कीर्तितास्ते सुमेधसः विभुरिन्द्रस्तथा तेषामास्वीद्विक्रान्तपौरुषः पौलस्त्योद्धवबाहुश्च सुधामा नाम काश्यपका हिरण्यरोमाङ्गिरसो वेदश्रीश्चैव भार्गवः ऊर्ध्वबाहुश्च वासिष्ठः पर्जन्यः पौलहस्तथा सत्यनेत्रस्तद्धात्रेयर्षयो रैवतेन्तरे महावीर्य सुसम्भाव्यसत्यगो बलबन्धुर्निरामित्रकम्बुशृङ्गो धृतव्रतः रैवतस्य च पुत्रास्ते पञ्चमं वै स्वारो शिष्यश्चोत्तमोऽपि तामसो रैवतस्तथा प्रियं व्रतान्वयाह्येदे चत्वारो मनवस्मृताः षष्ठे खल्वपि देवाये देवायै चाक्षुषेन्तरे आद्या प्रसुदा महानुभावा प्रसूद्य पृथुकाश्च दिव कस महानुभा पंचदेवगणस्मृता दिव कस अत्रे अत्र् नप्ता शारण्यस्य प्रजापतेः गणस्तु तेषां देवानामेकैकोह्यष्टकस्मृतः अन्तरिक्षो वस्सु हव्यो प्रियव्रतः श्वेदा मन्दानुमन्दा च त्वाद्याह्यदे प्रकीर्तिताः श्येन भद्रस्तथा चैव स्वेदचक्षुर्महायशाः सुमनाश्च प्रचेताश्च वनेन सुप्रचेतसौ मुनिश्चैव महासत्त्वप्रसूताः परिकीर्तिताः विजयसुजयश्चैव मनस्योदौ तथैव च मदिष् परिमधिश्चैव विचेता प्रियनिश्चयः भव्याख्यदे स्मृदा देव पृथुकांश्च निबोधत ओ देवो वा न दृष्टस्तथैव अजितश्च महाभागपृथुकास्ते दिवौकसः लेशास्तथा प्रवक्ष्यामि नाम तस्तान्निबोधत मनोजपप्रकाशश्च महायशाः ध्रुवो ध्रुवक्षितिश्चैव अत्युतश्चैव वीर्यवान् युवना बृहस्पतिश्चैव लेखा सम्परिकीर्तिताः मनोजवो महावीर्यस्तेष्यामिन्द्रस्तदा भवद उत्तमो भार्गवश्चैव अविस्मानङ्गिरः सुतः सुधामा हाश्यपश्चैव वसिष्ठो विरजास्तथा अधिनामा च पौलहस्तथा मधुरात्रेय इत्येते सप्त वै चाक्षुषेन्दरे ऊरुः पुरुश्च दध्युम् न तपस्वी सत्यवाकृतिः अग्निष्टुदधिरात्रश्च सुध्युम् न शचेतिते न वा अभिमन्युश्च दशमो नाड्वलेय मनोऽसुताः चाक्षुषस्य सुदाह्येदे षष्ठं चैव तदन्तरम् वैवस्वदेन सङ्ख्यादस्तत्सर्गः साम्प्रते न मनोः ऋषय ऊचुः चाक्षुषः चाक्षु कस्य दायादः तस्यान्ववायेऽप्यन्येता नो ब्रूहि यथा तद्धं सुत उवाच चाक्षुषस्य विसर्गं तु समासा यस्यान्ववाये शम्भूद पृथुर्वैन्यप्रतापवान् प्रजानां पदयश्चान्ये दक्ष प्राजेतशस्तथा उत्तानपादं जग्राह पुत्रमत्रिप्रजापतिः दत्तकः सदुः पुत्रोऽस्य राजा ह्यासीत् प्रजापतिः स्वयम्भुवेन मनुना दत्तोऽध्रे करणं प्रदि मन्वन्तरमथा साध्य भविष्यच्चाक्षुषस्यः षष्ठं तदनुवक्ष्यामि उपोद्धातेन वै उत्तानपादा चदुर चतुरसूनृदा सुदभामिनी धर्मस्य कन्या शुश्रोणी सुनृता नाम विश्रुता उत्पन्ना धर्मे मध्रुवस्य जननी शुभा धर्मस्य पत्न्यां लक्ष्म्यां वै उत्पन्नासा सुचिस्मिता ध्रुवं च कीर्तिमन्दं चत्वायुष्मन्दं वसुं तथा उत्थानपादो जनयत्कन्ये द्वे च शुचिस्मिते स्वरामनस्विनी चैव तयोः पुत्राः प्रकीर्तिताः ध्रुवो वर्षसहस्राणि दशदिव्यानि वीर्यवान् तपस्ते निरहार प्रार्थयन्विपुलं यशः त्रधा युगे तु प्रथमे पौत्रस्वायम्भुवस्य तु आत्मानं प्रार्थयन् सुमहद्यशः तस्मै ब्रह्म ददौ आभूद ज्योतिषां स्थानमुत्तमम् आभूदसम्प्लवाग्दिव्यमस्तोदयविवार्जितम् तस्यादि तस्यादिमात्रामृद्धिं च महिमानं निरीक्ष्यतु दैत्यासुराणामाचार्य श्लोकमप्युषा न जगौ अहोस्य तपसो वीर्यमहो श्रुतमहो व्रतं कृत्वा यदेनमुपरि ध्रुवं सप्तर्षयस्थिताः ध्रुवे त्रिदिवमासक्रमीश्वरसदिवस्पतिः ध्रुवासृष्टिं च भव्यं च भूमिस्थौ सुषुवे नृपौ स्वां छायामाह वै सृष्टिर्भवनारीदितां प्रभुः सत्याभि व्याहृतेस्तस्य सद्य श्री सा भवत्तदा दिव्यसंहननाच्छाया दिव्या, दिव्या भरणभूषिता छायां सृष्टिराधत्त पञ्चपुत्रान्न कल्मषान् प्राचीनगर्भं वृषभं वृकं च वृकलं धृतिं पत्नीप्राचीनगर्भस्य सुवर्चा सुषुवेऽनुपं नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि संवत्सरसहस्रान्धे सहृदाहरमाहरन् एवमन्वन्तरं युक्त इन्द्रत्वं प्राप्तवान् प्रभुः उदारधे सुदं भद्रा जनयत्सा दिवञ्जयं रिपुं रिपुं जया जज्ञे वराङ्गीदो दिवञ्जयाद